ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं टेन् मोहिनीप्रादुर्भावमलकासुरवधम् हयग्रीव उवाच अथ देवा महेन्द्राद्या विष्णुना प्रभविष्णुना अङ्गीकृत महाधीराः प्रमोदं परमययू मलगाद्यास्तु सर्वे दैत्या विष्णुपराङ्मुखाः सं त्यक्ताश्च श्रिया देव्या भृशमुद्वेगमागताः ततो जगृहिरे दैत्या धन्वन्तरिकरस्थितं परमामृतसाराढ्यं कलशं कनकोद्भवम् अधा सुराणां देवानामन्योन्यं कलहो भवद एतस्मिन्नन्तरे विष्णुः सर्वलोकैकरक्षकः सम्यगाराधयामासलितां स्वैक्यरूपिणीं सुराणामसुराणां च रणं वीक्ष्य सुदारुणं ब्रह्मा निजपदं प्राप शम्भुकैलासमास्थितः मलकं योधयामास दैत्यानामधिपं वृषा असुरैश्चसुराः सर्वे साम्परायमकुर्वत भगवानपि योगीन्द्रसमाराध्यमहेश्वरीं तदेकध्यानयोगेन तद्रूपः समजायत सर्वसम्मोहिनी सा तु साक्षा शृङ्गारनायिका सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता सुराणामसुराणां च निवार्य रणमुल् वणं मन्दस्मिदेन दैत्येयान् मोहयन्ती जगदः अलं युद्धेन किं मर्मस्थानविभेदिभिः निष्ठुर्हैः किं वृद्धा लाभैः कण्ठशोषणहेदुभिः अहमेवात्रमध्यस्था युष्मा कञ्च दिवौकसां यूयं तथामी निधरा मात्र हि क्लेशभागिनः सर्वेषां सममेवाद्य दाश्याम्यमृद मम प्रदातव्यं, प्रदातव सुधा पात्रुम यदि तै वच श्रुवा दैत्याद्वाक्य मोहिता पीयूषकलशं तस् दधुस्ते मुगचेतस तत्म सुराणामसुराणां च हृदक्पङ्क्तिं चकारः त्वयोः पङ्क्र्योश्च मध्यस्थास्तानुवाच सुराः सुराूष्णीं भवन्तु सर्वेऽपि क्रमशो दीयते मया तद्वाक्यमुरीचक्रुस्ते सर्वे समवायिनः साधु समोहिताश्लेषलोकादुं प्रचक्रमे क्वणत्कनकदर्वीकाणन्मङ्गलकङ्कणा कमनीय विभूषाढ्या कलासा परमा वामे वामे करं भोजे सुधा कलशमुज्ज्वलम् शुद्धां तां देवतापङ्क्तौ पूर्वं दर्व्यास्तदादिशद दिशन्धिक्रमशास्तत्र चन्द्रभास्करसूचितं दर्वीकरेण चिच्छेद सैं हि केयं तु मध्यगं पीदामृदशिरोमात्रं तस्य व्योम जगाम च ं दृष्ट्वाप्यसुरास्तत्र तूष्णीमा सन्विमोहिताः एवं क्रमेण तत्सर्वं विबुधेभ्यो वितीर्य सा असुराणां पुरःपात्रम् सा निनाय तिरोदधे रिक्तपात्रं तु तं दृष्ट्वा सर्वे दयितेयदानवाः उद्वेलं केवलं क्रोधं प्राप्ता युद्धचिकीर्षया इन्द्रादयसुराः सर्वे सुधा पानाद् बलोत्तराः दुर्वलैरसुरैः सार्धं समयुध्यन्तसायुधाः ते विद्यमानाः सदशो दानवेन्द्रासुरोत्तमैः दिगन्दान् कदि चिज्जग्मुः पातालं कदि चिद्ययुः दैत्यं मलकनामानं विजित्य विबुधेश्वरः आत्मीयां श्रिय माजह्रेश्रीकडाक्षसमीक्षितः पुनः सिंहासनं प्राप्य महेन्द्रसुरसेवितः त्रैलोक्यं पालयामास पूर्ववत्पूर्वदेवजित् निर्भयानिखिलादेवास्त्रैलोक्ये सचराचरे यथा कामं चरन्ति स्म सर्वदा हृष्टचेतसः तदा तदखिलं दृष्ट्वा मोहिनीचरितं मुनिः विस्मितक् कामचारी तु कैलासं नारदो गतः नन्दिना प्रणम्य परमेश्वरं तेन सम्भाव्यमानोऽसौ तुष्टो विष्ठरमास्तसः आसनस्तमहादेवो मुनिं स्वेच्छाविहारिणं पप्रच्छ पार्वती जानिस्वच्छस्फटिकसन्निभः भगवन् सर्ववृत्तज्ञपवित्रीकृतविष्टर कलहप्रियदेवर्षे किं वृत्तं तत्र नाकिनाम् सुराणामसुराणां वा विजयसमजायत किं वाप्यमृदवृत्तान्तम् विष्णुना वापि कृतं कृतम् इति पृष्ठो महेशेन नारदो मुनिसत्तमः उवाच विस्मयाविष्टः प्रसन्नवदने क्षणः सर्वं जानासि भगवन् सर्वज्ञोऽसि यतस्ततः तथापि परिपृष्ठेन मया तद्वक्ष्यते धुना तादृशे समरे कोरे सदि दैत्यदिवौपसाम् आदिनारायमश्रीमान्मोहिनीरूपमादधे तामुदारविभूषाढ्यां मूर्तां शृङ्गारदेवतां सुराः सुराः समालोक्य विरतास्समरोऽध्यमाद तन्मया मोहिदा दैत्यासुधा पात्रं च याचिताः कृत्वा तामेव मध्यस्तामर्पयामासुरञ्जसा तदा देवी तदादाय मन्दस्मितमनोहरा देवेभ्य एव पीयूष्रमशेषं विततारसा शिरोहितामदृष्ट्वा तां दृष्ट्वा शून्यं च पात्रकं ज्वलन्मन्युमुखा दैत्या युद्धाय पुनरुद्धिताः अमरैरमृतास्वादा दत्युल्ल्वणपराक्रमैः पराजितामहादैत्या नष्टाः पादालमभ्ययुः इमं भवानी भवानीपतिख्ययः नारदं प्रेषयित्वाशु तदुक्तं सततं स्मरन् अज्ञातः प्रमथैः सर्वैः स्कन्दनन्दि विनायकैः पार्वतीसहितो विष्णुमाजगाम स विस्मयः क्षीरोदतिरकं दृष्ट्वा सस्त्रीकं पृषवाहनं भोगि भोगासनाद्विष्णुः समुद्धाय समागतः वाहनादवरुह्ये शः पार्वत्या सहितस्थितं तं दृष्ट्वा शीघ्रमागत्य सम्पूज्यार्ख्यादिदो मुदा सस्नेहं गाढमालिङ्ग्य भवानी भवानीपदिमच्युतः तदागमनकार्यं च पृष्टवान्विष्टरश्रवाः तमोवाजमहादेवो भगवन्पुरुषोत्तम महायोगेश्वरश्रीमन् सर्वसौभाग्यसुन्दरम् सर्वसम्मोहजनकमवाङ्मनसगोचरम् यद्रूपं भवतोपातं तन्मह्यं सम्प्रदर्शय द्रष्टुमिच्छामि ते रूपं शृङ्गारस्याधिदैवतम् अवश्यं दर्शनीयं मे त्वं हि प्रार्थितकामधृक इति सम्प्रार्थितः शश्वन्महादेवेन तेन सह यद्भ्यान वैभवाल्लब्धं रूपमद्वैतमद्भुतं तदेवानन्यमनसा हरिः सर्वोऽपि सर्वतश्चक्षुर्मुहुर्व्यापारयन् क्वचिद अदृष्टपूर्वमाराममभिरामं विनोदिमधुपालिकं विकसत्कुसुमश्रेणीविनोदिमधुपालिकं चम्पकस्तबकामोद सुरभीकृतदिक्तम् मा कन्दवृन्दमाद्वीगमाद्यदुल्लोलकोकिलम् अशोकमण्डलीकाण्डशताण्डवशिखण्डिकं भृङ्गालिनवच्छङ्गार जितवल्लकिनिःस्वनं पाडलोदारसौरभ्यपाडलीकुसुमोज्ज्वलम् मालतालहिन्ताल कृतमालाविलासितं पर्यन्तदीर्घिका दीर्घपङ्कजश्रीपरिष्कृतं वादवादचलच्चारु फलवोत्फुल्लपुष्पकं सन्धानप्रसवामोदसन्तानाधिकवासितं तत्र सर्वत्र पुष्पाढ्ये सर्वलोकमनोहरे का पारिजाततरोर्मूले कान्दा काजिददृश्यत बालार्कपाटलाकारा का नवयौवनदर्पिता आकृष्टपद्मरागाभा चरणाब्जनखच्छदा यावकश्रीविनिक्षेप पादलौहित्यवाहिनी कलनिस्वनमञ्जीर पदपद्म मनोहरा अनङ्गवीर तूणीर दर्पोन्मदनजङ्घिका करिशुण्डाकतलिका का कान्ति तुल्योरुशोभि अरुणेन दुकूलेन सुस्पर्शेन धनीयसा अलङ्कृतन्निदम्पाढ्या जखना भोग जघना भोगपभासुरा नव मणिक्यसन्न हेम कांची विराजि नदनावर्तवल्यूर्म्रभा चरा स्तन कुम्द मुक्ता दाम सदावृता पीवर वक्षोज भार भंगुर मध्यभु शिरीशकोमलभुजा कङ्गणाङ्गदशालिनी सौर्मिकाङ्गुलिमन्मृष्ट शङ्खसुन्दरकन्धरा मुखदर्पणवृत्ताभचुबुकापाडलाखरा शुचिभिः पङ्क्तिभिः शुद्धैर्विद्यारूपैर्विभास्वरैः कुन्दकुट्मलसच्छायैर्दन्तैर्दर्शितचन्द्रिका स्थूलमौक्तिकसन्नद्ध नासाभरणभासुरा केदकान्तर्दलद्रोणि दीर्घ दीर्घविलोचना अर्धेन्दुतुलिताभाले सम्यक्लुप्तालकच्छटा कालीवतं समाणिक्यकुण्डला मण्डितश्रुतिः नवकर्पूरकस्तूरी रसा मोदिदवीटिका शरच्चरुनिशानाथमण्डली मधुरानना स्फुर कस्तूरितिलका श्रीमन्तरेखा विन्यस्तसिन्धूरश्रेणिभासुरा स्फरच्चन्द्रकलोत्तं समतलोलविलोचना सर्वशृङ्गारवेषाढ्या सर्वाभरणमण्डिता तामिमां कन्दुकक्रीडालोलामालोलभूषणां दृष्ट्वा क्षिप्रमुमां त्यक्त्वा सोऽन्वद्धावदधेश्वरः उमापिदं समोवेक्ष्य धावन्तं चात्मनः स्वात्मानं स्वात्मस्सौन्दर्यं निन्दन्ती चादिविस्मिता तस्ताववाङ्मुखी तूष्णीं लज्जासूयासमन्विता पृहीत्वा कथमप्येन मालिलिङ्गमुहुर्मुहुः उद्धूयोद्धूय साप्येवं धावति स्म सुदूरतः पुनर्गृहीत्वा तामीश कामं कामवशीसृदः आश्रुलिष्टं चादिवेगेन तद्वीर्यं प्रच्युदं तदा तदसमुद्धितो देवो महाशास्ता महाबलः अनेककोटिदैत्येन्द्रगर्वनिर्वापणक्षमः महा। तद्वीर्यबिन्दुस्संस्पर्शात् सा भूमिस्तत्र तत्र च रचतस्वर्म वर्णा भूल्लक्षणाद्विन्ध्यमर्दन तथैवन्तर्दथे देवदाविश्वमोहिनी देवता विश्वमोहिनी निवृत्तः स गिरीशोऽपि गिरिं गौरीस्सखो ययौ अधाद्भुतमिदं वक्ष्ये लोपामुद्रापदे शृणु यन्नकस्य चिदाख्यादं ममैव हृदये स्थितं पुरा नाम सर्वदैत्यशिखामणिः पूर्वं देवान् बहुविधान्यश्चास्थास्वेच्छया पडुः विशुक्रं नाम दैतेयं स्वर्गसंरक्षणक्षमं शुक्रतुल्यं विचारज्ञं दक्षां सेन ससर्जसः वामांसेन विश्राङ्गं च सृष्टवान् दुष्टशेखरं धूमिनी नामधेयां भगिनीं भण्डदानवः भ्रातृभ्यामुग्रवीर्याभ्यां सहिदो निहताहितः ब्रह्माण्डं कण्ठयामास शौर्यवीर्य समुच्छ्रितः ब्रह्मविष्णुमहेशाश्च तं दृष्ट्वा दीप्ततेजसं पलायनपराः सद्य तदनीमेव मं मदन विमूर्छिद श्वसीम चा पटवो नावन्ना केचि के पादागर्भेश केजिदंबुध केजिदिगंधकोण के कुंजु भूभृता विलीना भृश्यवित्रस्तास्त्यक्तधारस्तुतस्त्रियः भ्रष्टाधिकारा ऋभवो विचेरुच्छन्नवेशकाः यक्षान् महोरगान्सिद्धान् साध्यान् समरदुर्मदान् ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमेव च मत्वा तृणायितान् सर्वाल्लोकान् भण्डः शशासः अध भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुं तृतीयमुदभूद्रूपं महायागानलान्मुने यद्रूपशालिनीमाहुर्ललितापरदेवताम् पाशाकुशनुर्वाण पिष्कृतचुर्भुजा सा सादेवी परमशक्ति पर्रह्मस्वू जघान भंडदैत युद्धे युद्ध विशारदा यी ब्रह्मांडमहापुराणे उत्तरभागे हयग्रीवागस्त संवाद ललिताख्या मोहिनी प्रादुर्भाव प्रादुर्भावमलकासुरवधो नाम दशमोऽध्यायः समाप्तश्चोपोद्धातखण्डः ओ